ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भगवते महापुराणे सप्तमस्कन्धे सप्तदशोऽध्यायः गास उवाच त्वदन्तम् वारकाम् वीक्ष्य विश्वमित्रोदयातुरः शुनक्षेपम् वाचेदम् गत्वा पाश्वेति दुःखितम् मन्त्रम् पचेतस पुत्र मयोक्तम् मनसा स्मरन् जपतः कल्याणम् भविष्यति मम ज्ञया विश्वामित्रव च श्रुत्वा जजाप मनसः कौशिकोक्तम् स्फुटाक्षरम् जपतः तत्र तस्याशु दुर्बभूव स प्रसन्नो नृपबालके दृष्ट्वा तम् आगतं सर्वे वित्तयम् परमं गतः तुष्टवोर्वम् देवम् रीता दर्शने न ते राजाति वित्मितः पारोपणनाम रुजातुरः बद्धाञ्जलि देवं तुष्टाव्य पुरतः देव देव कृपा सिंधु पापा हम कृपा है दी कृपराधय कृपी पर मैं ते पुत्र दुखसंसलन कुत क्षमाप्यं श्रवणकोपराधय सुदुर्मती अथीरोषं न जाना तस्मा पुत्रीना वञ्चिताम् देवदेव भीतेन अपुत्रस्य गतेनाति स्वर्गो नैव च भीतोऽहम् तेन वाक्येन तस्मात् ते हेलनम् कृतम् नाज्ञस्य दूषणम् चिन्त्यम् नूनम् जानवता विभो दुःखितोऽहम् रुजाक्रान्तो वञ्चितः न जानेऽहं महाराज पुत्रो मे क्व गतप्रभो वञ्चयित्वावधेभीतो मरणाम् माम् कृपानिधि प्रययो द्रविणम् दत्त्वा गृहीतो द्विजबालकः यज्ञोऽयं क्रीतभोत्रेण प्रारब्धस्त्वतुष्टये दर्शनम् तव सम्प्राप्य कथम् दुःखम् मम अद्भुतम् जलोदरे कुतं सर्वं प्रसन्धे त्वयि साम्प्रतम् व्यासवाच इति तस्यैव च श्रुत्वा राज्ञो रोगातुरस्य च दयावाम् देव देवे सह प्रत्युवाच नृपोत्तमम् वरुणोवाच मुञ्च राजन् च नक्षेपम् स्तुवन्तम् माम् भृजातुरम् रोगमुक्तो भवात्मना इत्युक्त्वा वरुणः स्तूं राजानं बिरुजम् तथा चकार पश्यताम् तत्र सदस्यानां सुसंस्थितम् विमक्तोऽसौ द्विश पाश्चात् वरुणेन महात्मना च शब्द तथा तत्र सञ्जातो मखमण्डपे राजा प्रमोदितः सद्यो रोगान्मुक्तसुधारुणात् मुक्त शृणेपो बभू वातीव संस्थितः राजा चकार विनयान्वितः शृणक्षेपस्तु सभ्याम् इत्युवाच कृताञ्जलिः भोगो भो सभ्यासु धर्मज्ञः ब्रुवन्तु धर्मनिर्णयम् वेदशास्त्रानुसारेण यथाथ वादिनः पुत्रोऽहं कस्य सर्वज्ञः पितामेकोग्रतः परम् वच भवतां वचनात् शरणम् प्रव्रजाम्यहम् इत्युक्ते वचने तत्र सभ्या प्रोचु परस्परम् अजिगतस्य पुत्रोऽयं कस्यान्यस्य भवेदसो अङ्गादङ्गात् मधूतः पालितस्तेन भक्तितः अन्यस्य कस्य पुत्रोऽसौ प्रभवेदिति निश्चयः तच्छ्रुत्वा वामदेवस्तु तानुवाच सभासदः विक्रीतस्तेन ता तेन द्रव्यलोभास्तुतः किल पुत्रोऽयम् धनधातुश्च राज्ञत्र न अथवा वरुणस्येष पाशान्मुक्तोनेन वै अन्नदाता भयत्राता तथा विद्या प्रदर्शयः तथा वित्तपदर्शय पञ्चे ते पितरस्मृतः तदा केचित् पितुः प्राहु केचिद्राज्ञ तथा परे वरुणस्येति संवादे निर्णयम् न ययुच्यते इत्थम् सन्देहमापन्ने वसिष्ठो वाक्यमब्रवीत् सभ्यान् विवेदतः तत्र सर्वज्ञः सर्वपूजितः शृणोध्वम् भो महाभाग निर्णयम् श्रुतिसम्मतम् निःसन्देहेन यदा पित्रा विक्रीतोऽयं श्रुतैश्च सम्बन्धस्तु गतः तस्य तदैव हरिश्चन्द्रस्य सञ्जातः पुत्र स्वक्रीत एव च यूपे बद्धो यदा राज्ञस्य न वै सुतः वरुणस्तु सदोनेन तेन तुष्टेन मोर्चितः तद्मान्ना यम् महाभाग यः पुत्र प्रचेतसः योऽयं सौति महामन्त्रि सोऽपि तुष्टो ददाति च धनम् प्राणान् पशुम् राज्यम् तथा मोक्षम् गिलेप्सितम् कौशे कश्चायम् अरिष्ठेयेन रक्षितः मन्त्रम् दत्त्वा महावीर्यम् वर्णस्य वरुणस्यतिसङ्गणे रचुत्वा वाक्यम् वधिष्ठस्य बाणम्भो चिश्वामित्रग्राहे तम करे दक्षिणे ते पुत्रगृह पूरी शुन शेपो जु तेन सह सत् वरुणस्तु प्रसन्ना जगमचमा जगृहायुस्त राज्योग निर्मु बभूवातीमुदान्वितः प्रजासु पालयामास सुप्रसन्न चेतस रोहिताख्यास्तु च श्रुत्वा वृत्तान्तम् वरुणस्य हे आजगाम गृहम् प्रीतो दुर्गमाध्वनपर्वतात् दूता राजानमभ्यस्य प्रोचपुत्रम् समागतम् मुदितोऽसौ जगामाशु मुख कोसलाधिपः दुर्गापितरमायान्द प्रेमोद्रिक्तः सुभ्रमः दण्डवत्पतितो भूमौ अश्रुपूर्णमुख शुच राजा पी तं तमोत्थाप्य परिद्रभ्य मुदान्वितः समाघ्राय कुशलं पुनः उत्सङ्गे तं तमारोप्य मुदितो मेदिनीपतिः उष्णेनेत्र जलैः शीर्षणि अभिषेकम् अथकरोत् राज्यं च शाश्वतेनासौ पुत्रे नातिप्रियेण च वृत्तान्त नरमेढस्य कथया मासविस्तरात् राजसूयं क्रतुवरं चकार नृपसत्तमः वसिष्ठम् पूजयित्वाथ होतारं मकरो समाप्ते च समाप्ते त्वथ यज्ञेशे वसिष्ठोऽतीव पूजितः शक्रस्य सदनं रम्यं जगामय मुनिराधरत् विश्वामित्रोऽपि तत्रैव वसिष्ठेन च सङ्गतः मृत्वा तौ देव सदने मुनिषत्तमा विश्वामित्रोऽपि पप्रच्छ वसिष्ठं प्रतिपूजितम् विश्व विस्मचित्तं सभायां तु शकीपतेः विश्वामित्र उवाच क्वेयं पूजा त्वया प्राप्ता महती महाभाग सत्यं ब्रूहि ममांसिके यजमानोऽस् मे राजा हरिश्चन्द्रः प्रतापवान् राजतु ह्यः कृतेन राज्ञा प्रवरदक्षिणः निर्दृशोऽस्ति पश्चान्यः सत्यवादी धृतौ व्रतः दाता च धर्मशीलश्च प्रजा रञ्जनतत्परः तस्य यज्ञे मया पूजा राता कौशिकनन्दन कि पृछति पुन सत्यं ब्रवीम ये हरिचंद्रे सो राज न भूत नदी तथा चूर परम धाकवाच तस्वय श्रुआ विश्वाकोपन है बूवव क्रोध संवृत् लोचनो अब्रविच्चतम् विश्वामिध्रुवाच एवं स्तौशी नृपम् मिथ्या वादिनम् कपटप्रियम् वञ्चितो वर्णो येन पतिश्रुत्यै वरम् पुनः मम जन्मार्जितं पुण्यम् तपस पठितस्य ते वासि तपसो गृहम् कोरु महापते अहं चेत्तम् नृपम् सद्यो न करोम्यति संस्कृतम् असत्येवार्जनम् कामम् रातारम् महाखलम् आजन्म सञ्चितम् सर्वम् पुण्यम् मामविनश्यतु अन्यथा त्वत्कृतं सर्वम् पुण्यम् स्वीति पुणवहे गृहम् कृत्वा तर्सौतु विवधन्तो मुनीसदाय स्वाश्रमं सर्गलोका च गतो परमगोपनौ इति श्रीमद्देवी भागवते महापुराणे चादृशशास्त्रं संहितायां सप्तमस्कन्धे वसिष्ठ विश्वामित्रर्णनं नाम सप्तदश दशोऽध्यायः श्रीजगदम्बिकायार्पणमस्तु